अक्षग्लः सोऽभिवेत्परम् नस्तेनैव दोषो भवतीह पार्थ दीव्यामहे पार्थिवमाविशङ्काम् पुरुष्वपाणम् च चिरम् च मा कृथाः युधिष्ठिरौ उवाच देवलो मुनिसत्तमः इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा इदम् वै देवनम् पापम् निकृत्याकित वै सह तु जयो युद्धे तत्परम् न देवनम् नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत अजिह्ममषठम् युद्धमेतत् सत्पुरुषव्रतम् शक्तितो ब्राह्मणान् नूनम् प्रयतामहे तद्वै वित्तम् मातिदेवीर्माजैषीः शकुने परान् निकृत्या कामयेनाहम् सुखान्युतधनानि वा कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते शकुनिरुवाच श्रोत्रिय श्रोत्रिया नेति युधिषि विद्वान विदुषोभ्येतीस्ताह